गणेशुराण उपासखंड अयटी सवन शंकर उवाच अहम ते कथ्या व्रत सीधी परणे दुसिदे पक्षे चुर्ध्या आरभे व्रतम मलक कलकेन प्रादस्नानं च नित्यनैमित्तिकं सर्वं समाप्य क्रोधवर्जितः शुचौ मण्डपिकां कृत्वा कदलीस्तम्भमण्डिताम् इक्षुचामरपुष्पाढ्या मादर्शां वलिशोभिताम् तन्मध्ये कलशं स्थाप्य वस्त्रयुक्मेन वेष्टितं तत्र चाष्टदलं पद्मं कारयेत् चन्दनेन तु गुरोराज्ञां गृहीत्वा च पूजाद्रव्याणि प्रोक्षयेत् उपचारैषोडशभिपूजयेद्गणनायकम् काञ्चनं राजतं वापि स्वशक्रिया विनिर्मितं एकविंशति पक्वान्नैरेकविंशतिसङ्ख्यकैः गजाननायदेवाय नैवेद्यं परिकल्पयेद् एकविंशतिमुद्रास्तु दक्षिणार्थं निवेदयेद् सौवर्णी राजतीर्वापि वित्तशाढ्यं विवर्जितः एकविंशतिदूर्वाश्चेदा वा हरिता अपि अर्पयेद्देवदेवाय मन्त्रपुष्पाञ्जलिं तथा ब्राह्मणान्वेदविदुषः पूजयेदेकविंशतिम् भोजयेत्तादृशान्येन तावद्दानानि दापयेत् नमेत् क्षमापयेत्पश्चादश्चिद्रमिति वाचयेत् पार्थिवस्य गणेशस्य विधानं कथितं पुरा पूजाप्रकारसोऽप्यत्र सर्व एव उदाहृतः कथां तामेव शृणुयात्पश्चाद् बन्धुयुतस्वयं ध्यायन् गणेशम् भुञ्जीद मौनेर्नोपवसे तवा एवमासव्रतं कुर्याद्यावद्भाद्रचतुर्धिका तस्यां महोत्सवकार्यो यथा विभवमादराद पूर्वोक्तेन विधानेन पूजयेद्गणनायकम् रात्रौ जागरणं कार्यं गीदवादित्रनिस्वनैः पुराणश्रवणैरन्यैर्नानाख्यानवरैरपि सहस्रनाममन्त्रेण स्तुविदद्विरदाननं प्रभादे विमलं स्नात्वा पूजयेद्विरदाननं ब्राह्मणान् भोजयेद्भक्र्या शदं चैवैकविंशतिम् गोभूकाञ्चनवस्त्राणि भूषणानि धनानि च तेभ्यो दद्याद्यधाशक्तिदीनान्धकृपणेषु च अशक्लौ भोजयेदेकं विंशत्येकं तु वाडवान् ब्राह्मणाय प्रदातव्या मूर्तिश्चे धातु निर्मिताः अन्यथा परमोत्साहैर्जलमध्ये विसर्जयेत् दिव्यवादित्रनिर्घोषैर्मरयानस्थितां च चताम् छत्रध्वजपदा काभिर्वेदगीतादिनिस्वनैः बालानां दण्डयुद्धैश्च तां विसृज्य गृहं व्रजेत् व्रतमेकं तु ह्यः कुर्यादेकवारं षडानन सर्वान् कामानवाप्यैव गणेशं पदमाप्नुयाद ब्रह्मणाकारिसृष्ट्यर्थम् एकार्णं जपदा मनुं प्रत्यक्षो विकटस्थस्य सामर्थ्यं विविधं ददौ विष्णुना प्रापि पालने कुर्वदाव्रतं षडक्षरं महामन्त्रं जपदा परमाद्भुतम् स्वेच्छावतारसामर्थ्यं तदः प्राप्तं षडानन मयाप्यकारिपुत्रैतज्जपताष्टाक्षरम् मनुम् वृत्रम् च शम्बरं दैत्यं शक्रेण मदनेन च जिखां सदा कारिव्रतं तौ तौ जेदुं च सेकदुः नाना सामर्थ्यवानस्मि संहरामि जगत्त्रयं यक्षगन्धर्वमुनिभि किन्नरो रगराक्षसैः अकारिस्वेष्टसिद्ध्यर्थं सिद्धचारणमानवैः येदत्वं स्कन्धवरदचतुर्थीव्रतमाचर भविष्यसि रणे जेये विख्यातो भुवनत्रये षडक्षरं च मन्त्रं ते ददामि वरदस्यः ब्रह्मोवाच सुमुहूर्ते ददौ तस्मै शिवो दीक्षां षडक्षरीं तदैव स ययौ द्विजोत्तम सुनिर्मलतरे देशे वृक्षवल्ली समाकुले बहुमूलफले रम्ये सरोवापी सुशोभिते एकपादस्थितस्कन्धस्तपस्तेपे सुदारुणम् व्रतं चकारविधिवद्यथोक्तं शम्भुना पुरा अनुष्ठानाच्च मन्त्रस्य व्रतस्यास्य प्रभावतः प्रसन्नोऽभूत्तदैवास्य परमात्मा गजाननः दर्शयामास सेनान्ये योगिध्येयमनुत्तमम् निजं रूपं महातेजाश्चतुर्भुजविराजितम् महामुकुटसंशोभिकुण्डलाङ्गदशोभितं एकदन्तं बालचन्द्रं शुण्डादण्डविराजितं पाशाङ्कुशकरं माला दन्तहस्तं सुशोभनं मुक्ता मणिगणोपेदम् र्पराजयुदोदरं दिव्यवस्त्रपरिधानं दिव्यगन्धानुलेपनम् अनेकसूर्यसङ्काश्यं तेजोज्ज्वाला सुदीभिधं ददर्शषण्मुखस्तत्र विस्मयोत्फुल्ललोचनः व्याकुलीभूतचित्तोसौ किमेतदित्यचिन्तयद मया यच्चिन्त्यते न्यद्वा तद्वा विन्द्यां न चाप्यहं ततः पप्रच्छतूष्णीं स को भवान् किं गजानन उवाच चिन्त्यते यो दिवरात्रौ त्वयैकाग्रेण चेदसा सोहं प्राप्तो वरं दातुं वदते हृदि वाञ्छितं ददामि तुष्टस्तपसा षडाननगजाननः स्कन्द उवाचा विधुर्नदेवान च शास्त्रकारा ब्रह्मादयशेषमुखाश्च नागाः तव स्वरूपं जगदीश सम्यग्दर्शितन्मे द्विरदाननाद्य तेनैव जातः परिपूर्णकामः तथापि यादे पराजयो मे न कदाभिभूयात् प्रत्यक्षदामे हि विचिन्त्यमानः अविस्मृति स्यात्तव पादपद्मे सर्वेषु देवेषु वरिष्ठिता च अलक्ष्यो लक्ष्यदां याधस्ततो लक्ष्यविनायकः नाम्नाख्यादो भवात्र त्वं भक्तकाम सुरद्रुमहा लक्ष उवाच सर्वं तद्भविदा स्कन्दयद्यत्प्रातिदमद्य मे अविस्मृतिश्च सान्निध्यं चिन्त्यमानस्य मे भवेद् पराजयो रिपूणां ते देवश्रैष्ठ्यं भविष्यदि ब्रह्मोवाच एवं वरान् ददौ देवो मयूरं निजवाहनं ददौ स्कन्धाय सुप्रीदो विनयाच्च तपो बलात् मयूरध्वज इत्येवं नामख्यातं तदोभवद गजानन उवाच मृदिं यास्यन्ति हस्तात् तारकाद्या महासुराः लक्षविनायक इति नाम्नाहं भक्तवत्सलः भविष्यामि चिरादत्र क्षेत्रे त्वद्वाक्यदोनख ब्रह्मोवाच एवमुक्त्वा तु विकटस्तत्रैवान्तर्हितो भवत् तदस्कन्दो महामूर्तिं कृत्वा स्थाप्यद्विजैः सह लक्षविनायक इदि नामचक्रे शुभं तदा मोदकैर्लक्षसङ्ख्याकैपुष्पैर्दूर्वाङ्गुरैरपि पूजयामास तां मूर्तिर्म्याैर्द्रव्यस्तथाविधैः ब्राह्मणान् भोजयामास तावत्सङ्ख्यायुधान् द्विचान् स्तुत्वा नत्वा ययौ लोकशङ्करं मयूरमारुह्य तदसर्वं चा मयूरध्वज इति च नाम देवकृतं जगौ तारकासुरनाशाय ययौ स्कन्दशिवाज्ञया स्मृत्वा गजाननं देवं परिगृह्य शिवाशिषः देवसेनापदित्वे सावभिषिक्सुरर्षिभिः सेनानीस्तारकं दृष्ट्वा युद्धं चक्रे महाबलः लक्षवर्षान्तरे तं स युद्धं तद्वर्णितुं शक्तिशेषस्यापि न वैभवेद् तारके दैत्ये दैत्येननन्दुः सर्वदेवताः मुनयो लोकपालाश्च नागाश्च मानवास्तदा मुमुचुपुष्पवर्षाणिस्कन्दस्योपरि निर्वृताः सर्वदेवाश्च लोकाश्च स्वं स्वं स्थानं ययुस्तदा स्वाहा स्वधावषट्कारान् यथा पूर्वं च चक्रिरे वाचा एवं प्रभावो देवोऽसौ कथितस्ते गजाननः व्रतप्रभावो विमया यथावत्ते निरूपितः त्रयत्रिंशत्कोटि सुरैरवध्योऽसौ महासुरः स्कन्देन निकटसङ्ख्ये देवव्रतप्रभावदः इन्द्रादिदेवतावृन्दैः पूजनीयो भव च सः व्यास उवाच अनुष्ठानं कृदं तेन कस्मिन् स्थाने समाधिना परमेन विशाकेन तन्मे ब्रूहि यत्रास्ते प्रजापद ब्रह्मोवाच अनुष्ठानास्तेशे प्रसिद्ध वर्तना आशीलनायक ये लोभू त्र नगरे पश्चाद्राजाभिविश्रुतः तन्नाम्ना नगरं ख्यातं तदस्तदभवन्मुने इति श्रीगणेशपुराणे उपासनाखण्डे तारकवधो नाम सप्ताशीतितमोऽध्यायः ॐ